लवामि भक्तवसलं कृपालु शीलकोमलं भजामि ते पदाम्बुजम् अकामिनां सदामलं निकामशाम सुन्दरं भवाम्बुनाथमन्दरं प्रफुल्लकञ्जलोचनम् मदालिदोषमोचनं कलं बगावुविक्रमं प्रभो प्रमेयवैभवं विसङ्गचापसायकं करं त्रिलोकनायकं त्रिणेशवंशमण्डनं महेशचापखण्डनम् मुरेन्द्रसन्तरञ्जनं सुरारिवृन्दभञ्जनं मनोजवैरिवन्दितम् अजारिदेवसेरितं विशोधबोधविग्रहं समस्तजोषणापहम् नमामि इन्दिरापतिं सुखाकरं सतां गतिं भजे सशक्तिसानुजं सचीपतिप्रियानुजं स्वदङ्ग्रिमूलये नरा भजन्ति हि नमः शरा पतन्ति नो भवार्नवे पितर्कविशङ्कुरें विवेक्तवासिनः सदां भजन्ति मुक्तये मुदां निरशयन्द्रियादिकं प्रयान्ति ते गतिं स्वकं तमेकमद्भुतं प्रभुं निरीहवेश्वरं विभुम् जगद्गुरुं च शाश्वतं तुरीयमेव केवलं भजामि भाववल्लभं कुयोगिनां सुदुर्लभं स्वभक्तकल्पपादपं समं सुसेव्यमन्महम् अरूपभूपतिं अरूप अरूप नतोहमर्वेदापतिम् सीदमे नमामि ते प्रदागभक्तिदेहि में पठन्ति ये स्तवंमिदं नरादरेण ते प्रदं प्रजन्ति नात्र संशयं प्रदीयभक्तिसयुता प्रजन्ति नात्र संशयं प्रदीयभक्तिसयुता तदीय भक्तिशयुता